ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते महापुराणे सप्तमस्कन्धे पञ्चदशोऽध्यायः व्यासवाचे प्रवृत्ते सदरे तस्य राज्ञपुत्रमहोत्सवे अजगाम तदा पाशी विप्रवेशधर शुभ अस्तीत्युक्त्वा नृपम् ब्रहे वरुणोऽहम् निशामय पुत्रो दत्तस्तवाधीश यजानेन नृपाशु माम् सत्यम् कौरवशो राजन् यत्रोक्तम् भवतः पुरा वञ्झस्तम् तु गत वरदानेन मे इति तस्यैव श्रुत्वा चिन्तां चकारः कथं हन्मी सुतं दातं जलजेन समाननम् लोकपालस्तप्रवेशेन वीर्यवान् न देव हे न कार्यं सर्वथा शुभमिच्छत पुत्रस्नेह सुधुच्छेद्य सर्वथा प्राणिभिश्च किं करोमि कथं मे स्यात् सुखम् धन्ततिसम्भवम् धैर्यम् अलम्ब्य भोपार् तं नत्वा पतिपूज्य च उवाच वचनं श्लग्नम् युक्तम् विनयपूर्वकम् राजोवाच देव देवे तनुज्ञां करोमि वेदोक्तेन विधानेन खं च बहु दक्षिणम् पुत्रे दातिर्जाहेन कर्मयोग्यो भवेत् पिता मासेन युद्धे जननी दम्पती तस्य करणम् सर्वज्ञोऽसि पचेतस्त्वं धर्मं जानाति शाश्वतं कृपां कुरु त्वं क्षमस्व परमेश्वर दासुवाच इत्युक्तास्तु पचेताम् पत्युवाच जनाधिपम् स्वस्ति ते तु गमिष्यामि कुरु कार्याणि पार्थिवे आगमिष्यामि मासां ते यष्टव्यम् सर्वथा त्वया कृथानिकमुनिकमाचारम् पुत्रस्य नृपसत्तमय इत्युक्त्वा शक्ष्ण वाच राजानम् पतिः हरिश्चन्द्रो मुदम् गते पाशिनि पार्थिवः कोटिशः प्रदोर्गास्ता घटोऽग्नेम पूरितः पिप्रेभ्यो वेद विद्भ्यश्च तथैव वे तिलपर्वतान् राजा पुत्रं कमृष्ट सुखमाप महत्तरम् नामास्य रोहित चेति सकार विधिपूर्वकम् पूर्णे मासि ततः पाशी विप्रवेशेण भूपते आशगाम गृहे सद्यो यजस्वेति ब्रुवन्मुहो वीक्ष्य तं नृपते देवम् निमग्नः शोकसागरे प्रणिपत्य कुतातिथ्यम् तम् उवाच कुताञ्जलिः जिष्ट्या देव त्वमायात गृहम्भे पावितम् प्रभो मखम् करोमि वारिश विधिवेद्वाञ्छितम् तवे तरन्तो न पशु श्लाघ्य इत्याहुर्वेदवादिन हे तन्मर्दन्तोद्भवेतेऽहम् करिष्यामि महामखम् वासोवाच इत्युक्ता तेन वरुणः तथेत्युक्त्वा यथावत् हरिश्चन्द्रो मुदम् प्राप्य विजहारे गृहाश्रमे पुनर्दन्तो दवम् ज्ञात्वा सचेत द्विजरूपवान् आजगाम गृहे तस्य कुरुकार्यमिति ब्रुवन् भूपालोऽपि जराधीशम् वीक्ष प्राप्तम् द्विजाकुटिम् प्रणम्यासु न सम्मानहि पूरयामासु तुत्वा प्रोवाच वचनम् विनया न सकन्धरः करोमि विधिवत्कामम् मखं बाल बालोपे। बालोऽपि शौलोयं, गर्भकेशो न सम्मतः यज्ञाथे पशुकर्णे मया वृद्धमुखाश्रुतम् तावच्च मरीशे विधिम् जानासि शाश्वतम् कर्तव्यः सर्वथा यज्ञो मण्डना ते शिशोकिलहे तस्येति वचनम् श्रुत्वा प्रचेता प्राहतम् पुनः प्रसारयसि मां राजन् पुनः पि ते सर्वसामग्री वर्तते नृपते धुना पुत्रस्नेह पञ्चय स्वीय साम्प्रतम् चोरे कर्मविधिम् कृत्वा न कर्तासि मखम् यदि तदाहम् दारुणं चापम् दास्ये कोपसमन्वितः अच्छ गच्छामि राजेन्द्रे मानदे न मृषाय वचनं कार्यं कुलकुकुलोद्भव कु... इत्याभाषयवासु सचेतापते गृहाय राजा परमसन्तुष्टो न भवने यदा चोडाकरणकाले तु प्रवृत्ते परमोत्सवे सम्प्राप्तस्तरसा पाशी भवनं नृपते पुनः यदाङ्के सूतमादाय राज्ञी नृपतिसन्निधौ उपविष्टा क्रियाकाले तदैव वर्णोऽभ्यगेति विस्पष्टं वचनं कथयन् नृपम् विप्रधर श्रीमन् प्रत्यक्ष इव पावकः पुते तं समालोके बभूवातीव बिह्लहे न मश्चकारे तम् भीत्या कृताञ्जलि पुट पुरहे विधि वैत् पूजये स्वातम् राजोवाच विनीतवान् स्वामिन् कार्यम् करोम्यद्य मखस्य विधिपूर्वकम् वक्तव्यमस्ति तत्रापि शृणुष्वैकमना विभो युक्तं चन्मन्यसे स्वामिन् तद्र भीमि तव कृते ब्रह्मक्षत्रयो वैश्य तयो वर्णाद्विजातयः संस्कृताश्चान्यथा शुद्र एवं वेदविदो विदुः तस्मादयं तेषु उपनीतः क्रियाः स्यात् इति वेदेषु निर्णयः राज्ञाम् एकादशे वशी सदोपनयनं स्मृतम् अष्टमे ब्राह्मणानां च वैशानां द्वादशे किल देशे यदि दे देवेश दीनं मां सेवकं तव तदोपनीय कर्तास्मि पशुन युतम लोकपाली धर्म सर्वशास्त्र विचार मन्यसे मनसे मद्वच सत्यम भवनं विभो व्यासवाच्ती तस्व शुवा दयावाम पति यहां प्रसन्न वनों नृप थ वरुणे राज बभूवा से मुलाखम प्राप्य सुतम सकार राज्य हरिचंद्र तथा सदा काल वृजता पुत्र बभूव दर्जवाचिकवीन सामग्री भूते सदृशीन्दृपे चकार ब्रह्मणे चेतै अन्वितः सचिवैस्तर एकादशे तु तस्याब्दे प्रतिबन्ध विधौ नृपे विदधे विधिवत्कार्यं चित्ते चिन्ता सुरः पुनः वर्तमाने तथा कार्ये उपनीते कुमारके अजगा माथ वरुणो धरसरम् वीक्ष्य न पते प्रणम्य पुरतः स्थिते उताञ्जलिः पठ प्रीतः पत्युवाच सुरोत्तमम् देवदत्तोपवीतोऽयं पशुयोग्योऽस्ति मे सुतः प्रसादाय तव मेशोको गतो वन्द्यापवदजः कर्तुमिच्छाम्यहं यज्ञम् क्षिणम् समये शृणु धर्मद्य सत्यं मध्य ब्रवीम्यहम् समावर्तन कर्मान्ते करिष्यामि तवेप्सितं मम परिदयं कृत्वा तावत् तं चन्तुमर्हसि वर्णोवाच प्रतारयसि मां राजन् पुत्र प्रेमाय तिं कृत्वा युक्ते युक्ता महामते गच्छा मध्यमहाराजे वचतः तव नोदितः आगमिष्यामि समये समावर्तनकर्मणि इत्युक्त्वा प्रयोपाशि समापृच्छ विशां पते राजा प्रमोदितः कार्यं चकार्य च यथोत्तरम् ृष्ट्वा कुमारोति विचक्षणः यद्यस्य समयं ज्ञात्वा तदा भवते। शोकस्य कारणम् राज्ञः पर्यपृच्छादितस्ततः ज्ञात्वात्मा वदमायुष्मन् गमनाय मतिम् दधो निश्चयं परमम् कृत्वा सम्मन्त्र सचिवात्मजहि नगरा तस्मात् निर्गत्ययो गते पुत्रे नृपकामं दुःखितो भूर्भृजं दरे प्रेरयामास दूतान् सान् तस्यान्वेषणकम्य एवं गते कालेषु वर्णस्तद्गृहं गते राजानं शोकसन्तप्तं क्रो यज्ञमिति ब्रुवन् राजा तम्प्रे देव देव करोमि किं न जाने क्वापि पुत्रो मे गतस्त्वद्य भयाकुलः सर्वत्र गिरिदुर्गेषु मुनीनामाश्रमेषु चन्वेषितो मे दूतये अन्वेषितो मे दूतये तु न प्राप्तो यद् सम्पते अज्ञापय महाराज किं करो मे गते सुते न मे दोषोऽत्र सर्वज्ञ भाग्यदोषस्तु सर्वथा भूप वचः श्रुत्वा प्रजेतः कपितो भृजम् शशाप च नृपम् क्रोधात् वञ्चितस्तु पुनः पुनः नृपतेऽहं त्वया यस्मात् वचतः च तस्माज्जलो दरो व्याधि तन्तु दि दरुणे ज्ञात्वा इति शप्तो मही पारः कृपितेन प्रचेतसाय पीडेतो भूत्तदा राजा व्याधि न दुःखदेन तु एवं शब्दा जगाम निजमास्पदम् राजा प्राप्य महाव्याधिम् बहु वा अतीव दुःखितः इति श्रीमते वि भगवते महापुराणे छादशदास्यां संहितायां सप्तमस्कन्धे हरिचन्द्रस्य जरो द्रव्याधिप्राप्तिवर्णनं नाम पञ्चदशोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु